श्रीमद्भागवत्पुराणं श्रीमद्भागवतमहात्म्ये पञ्चमोऽध्यायः प्रे उवाच गया श्राद्ध सेनापि मुक्तिर्मे न भविष्यति उपायम् अपरं कञ्चित् त्वं विचारेषाम्प्रतम् इति तद्वाक्यम् आकर्ण्य गोकर्णो विस्मयं गतः तत् श्राद्धैर्मुक्तिश्चेद् असाध्यं मोचनं तव इदानीं तु निजं स्थानम् आतिष्ठप्रेतनिर्भयः तन्मुक्तिसाधकं किञ्चिन् आचरिष्ये विचार्य च धुन्दुकारी निजस्थानं तेनादिष्ट ततो गतः गोकर्णश्चिन्तयामास तां रात्रिं न तदध्यगात् प्रात मागतं दृष्ट्वा लोकाप्रीत्या समागताः तत्सर्वं कथितं तेन यज्जातं च यथा निशी विद्वांसो योगनिष्ठाश्च ज्ञानिनो ब्रह्मवादिनः तन्मुक्तिं नैव ते पश्यन् पश्यन्त शास्त्रसञ्चयान् ततः सर्वैःपुर्यवापुसुर्यवाक्यं स्थापितं परम् गोकर्णस्तम्भनं चक्रे सूर्यवेगस्य वैतदा तुभ्यं नगुं नमो जगस्साक्षिन् द्रोहि मे मुक्तिहेतुकं तच्छ्रुत्वा दुरतः सूर्यः स्फुटमित्यं नित्यभ्यभासत श्रीमद्भाभुतान्मुक्तिसप्ताहं वाचनं कुरु इति सूर्यवच सर्वै धर्मरूपं तु विश्रुतम् सर्वे ब्रुवन् प्रयत्नेन कर्तव्यं सुकरं तिदं गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः तत्र संश्रवणार्थाय केशग्रामाज्जनाय यू पङ्पङ्गं बन्धवृद्धमन्दाश्च तेऽपि पापक्षयाय वै समाजस्तु महाजातो देवविस्मयकारक यदैवासन्मास्थाय गोकर्णो कथयत्कथां स प्रेतोऽपि तदा जातस्थानं पश्यन्नितस्ततः सप्तग्रन्थे युतं तत्रापश्यत्कीं कीचकमुत्थितं तन्मूलच्छिद्रमाविश्य श्रवणार्थं स्तुतो शसौ द्वातरूपे स्थितिं कर्तुम् अशक्तो वंशमाविशत् वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य स प्रथमस्कन्धतः स्पष्टम् करोत। धेनुजोऽकरोत् दीनान्ते रक्षितागाथा तदा चित्रं बभूवः द्वन्द्ैकग्रन्थिभेदो भूस्शब्दं पश्यतां शताम् द्वितीयेन्नि तथा सायं द्वितीयग्रन्थिभेदनम् तृतीयेऽढी तथा सायं तृतीयग्रन्थिभेदनम् एवं सप्तदिनश्चैव सप्तग्रन्थिविभेदनं कृत्वा स द्वादशस्कन्धशरणात्प्रेततां द्यहौ दिव्यरूपधरो जातस्तुलसीतां मनुमण्डितः पीता वासा घनश्यामो मुकुटिकुण्डलान्वितः न नाम भ्रातरं सद्यो गोकर्णम् इति चाब्रवी त्वयाहं मोचितो बन्धो कृपया प्रेतकल्मषा धन्या भागवती वार्ता प्रेतपीडाविनाशने तप्त कोऽपि तथा धन्यकृष्णलोकफलप्रदः कम्पन्ते सर्वपानि सप्ताहश्रवणे स्थिते अस्माकं प्रलयं सद्य कथा चेयं आर्द्रं शुष्कं लघुस्थूलं वाङ्मनकर्मभि कृतं श्रवणं विदहेत्पापं पावकसमिधो यथा अस्मिन् वै भारते वर्षे सूर्यभिर्देव संसदि तथा श्राविणां पुंसां निष्फलं जन्मकीर्तितम् किं मोहतो रक्षितेन सुपुष्टेन बलीयसा अध्रुवेण शरीरेण शोकशास्त्रकथाम्बिनाम् अस्थिस्तम्भं स्नायुबद्धं मांसोणितं लेपितं चर्मावनद्धं दुर्गन्धं पात्रं मुद्रपुरीशयोः जराशोकविपाकार्तं द्रोगमन्दिरमातुरम् दुस्फुरं दुर्धरं दुष्टं सदोषं क्षणभङ्गुरं कृमेविड्भस्मं संज्ञान्तं शरीरमिति वर्णितम् अस्थिरेणा स्थिरं कर्म कुतोऽयं साधयेन्नहि यत्प्रात् संस्कृतं चान्नं सायं तच्च अभिनश्यति तदीय रसम्पुष्टेका एकानां नित्यताम् सप्ताह सप्ताहश्रवणाल्लोके प्राप्यते निकटे हरिः अतो दोषान्वित्यर्थम् एतदेव हि साधनं बुद्बुदायुतो येषु मशकायुजन्तुषु जायन्ते मरणायैव कथाश्रवणवर्जिताः जलस्य शुष्कवंशुकुशुष्कवंशस्य यत्र ग्रन्थे विभेदनम् चित्रं किमुतदा चित्त ग्रन्थिभेदकथाश्रवात् दिद्यते हृदयग्रन्थे छिद्यन्ते सर्वसंशयाः धीयन्ते चास्य कर्माणि सप्ताहश्रवणे कृते संसारकर्दमालेपप्रक्षालनपटीयसि तथातीर्थे स्थिते चित्ते मुक्तिरेव बुधे स्मिताम् एवं ब्रुवतु वै तस्मिन् दिमानमागमन्तदा दैकुण्ठवासिभिर्युक्तं तत्फुरदीप्तिमण्डलम् सर्वेषां पश्यतां भेजे विमानं धुन्धुलीसुतः विमाने वैष्टमान् भीक्ष गोकर्णो वा किमब्रवीत् गोकर्णोवाच अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः आनीतानि विमानानि न तेषां युगपत्कुतः श्रवणं समभागेन सर्वेषामिह दृश्यते फलवेदकुतो जातं प्रब्रुवन्तो हरिप्रियः